अथ षड्विंशः सर्गः दूषणस्तु स्वकम् सैन्यम् हन्यमानम् विलोक्य च सन्दिदेशमहाभाहुर्भीमवेगान् दुरासदान् राक्षसान् पञ्चसाहस्राण् तेशूलै पट्टिशै शूलैः पट्टिषैः खड्गैः शिलावर्षैर्द्रुमैरपि शरवर्षैरविच्छिन्नम् भवर्षुस्तम् समन्ततः तद्रुमाणाम् शिलानाम् च वर्षम् प्राणहरम् महत् प्रतिजग्राहधर्मात्मा राघवस्तीक्ष्णसायकैः प्रतिगृह्य च तद्वर्षम् निमीलित इव वृषभः रामः क्रोधम् परम् लेभे वधार्थम् सर्वरक्षसा ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा शरैरभ्यकिरत्सैन्यम् सर्वतः सह ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः शरैरशनिकल्पैस्तम् राघवम् ततो रामः सङ्क्रुद्धः क्षुरेणास्य महद्धनुः चिच्छेदसमरे वीरश्चतुर्भ्यश्चतुरोहयान् हत्वा चाश्वाञ्छरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः शिरोजहार तद्रक्षस्त्रिभिर्विव्याधवक्षसि सच्छिन्नधन् वा विरथो हता श्वो हत सारथिः जग्राहगिरि शृङ्गाभम् परिघम्रो महर्षणम् वेष्टितम् काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम् आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णम् परवसोऽक्षितम् वज्राशनि समस्पर्शम् दूषणोऽभ्यपतद्रामम् क्रोरकर्मा निशाचरः तस्याभिपतमानस्य दूषणस्य शराघवः द्वाभ्याम् शराभ्याञ्चिच्छेदसहस्ताभरणौ भुजौ भ्रष्टस्तस्य महाकायः पपातरणमूर्ध्वनि परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः च विकीर्णाभ्याम् पपातभुविदूषणः विषाणाभ्याम् विशीर्णाभ्याम् मनस्वीव महागजः दृष्ट्वा तम् पतितम् भूमौ दूषणम् निहतम् रणे साधु साध्वितिकाकुत्स्थम् सर्वभूतान्यपूजयन् एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिणः संहर्त्याभ्यद्रवन् मृत्युपाशावपाशिताः महाकपालस्थूलाक्षः प्रमाथी च महाबलः महाकपालो विपुलम् शूलमुद्यम्य राक्षसः स्थूलाक्षःपट्टिषङ्गृह्य प्रमाथी च परश्वधम् दृष्ट्वैवापततस्ताम् स्तु राघवः सायकैः शितैः तीक्ष्णाग्रैः प्रतिजग्राहसम्प्राप्तानतिथीनिव महाकपालस्य शिरश्चिच्छेदरघुनन्दनः असङ्ख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् स्थूलाक्षस्याक्षिणी स्थूले पूरयामास सायकैः सपपातः हतो भूमौ विटपीव महाद्रुमः महा। दूषणस्यानुगान् पञ्चसाहस्रान् कुपितः क्षणात् हत्वा तु पञ्चसाहस्रैरणयद्यमसादनम् दूषणम् निहतम् श्रुत्वा तस्य चैव व्यादिदेशखरः क्रुद्धः सेनाध्यक्षान् महाबलान् अयम् विनिहतः सङ्ख्ये दूषणः स पदानुगहा महत्या सेनया सर्वराक्षसाः एवमुक्त्वा खर क्रुद्धो राममेवाभिदु श्येनकामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः दुर्जयः करवीराक्षः परुषः कालकान्मुकः हेममाली महामाली सर्पास्योरुधिराशनः द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः राममेवाभ्यधावन्त विसृजन्तः ततः पावकसङ्काशैर्हेमवज्रविभूषितैः जघानशेषम् तेजस्वी तस्य सैन्यस्य सायकैः ते, ते रुक्मपुङ्खा विशिखाः स धूमा इव पावकाः निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् रक्षसाम् तु शतम् तु सहस्रेण जघानरणमूर्धनी तैर्भिन्नवर्मा भरणाश्चिन्नभिन्नशरासनाः निपेतुः शोणिता दिग्धाधरण्याम् रजनीचराः तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव तत्क्षणे तु महाघोरम् वनम् निहतराक्षसम् चतुर्दशसहस्राणि राक्षसाम् भीमकर्मणा हतान्येकेन रामेण मानुषेण पदातिना तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः राक्षसस्त्रिशिराश्चैव रामश्चरिपुसूदनः शेषा हता महावीर्या राक्षसारणमूर्धनी घोरा सर्वे लक्ष्मणस्याग्रजेन ते ततस्तु तद् भीमबलम् महाहवे समीक्ष्य आदिकाव्ये अरण्यकाण्डे